सौ तिरुवाचा एतच्छ्रुत्वा प्रीयमाणाः समेता एतत्रा सन्पन्नगावीतमोहाः अस्ति के प्रीतिमन्तो बभूवुः ऊचुश्चैनं वरमिष्टं वृणीष्व भूयो भूयः सर्वशस्ते ब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन् प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्यवत्स आस्तीक उवाच सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रामाणवा परेपी परेऽपि धर्माख्यानं ये पठेयुर्ममेदम् तेषां युष्मन्नैव किञ्चिद्भयं स्यात् तैश्चाप्युक्तो भागिनेयः प्रसन्नैः एतत् सत्यं काममेवं वरं ते प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारस्मप्रवणाभागिनेय असितं चार्तिमन्तं च सुनीतं चापि दिवा वा य दिवा नास्य सर्पभयं भवेत् यो जरत्कारुणातातो जरत्कारौ महायशाः आस्तिकः सर्पसत्रेवः पन्नगान्योऽभ्य रक्षता तं स्मरन्तं महाभाग न हिंसितुमर्हथा सर्पापसर्पभद्रं ते गच्छ सर्पमहाविश जनमे जयस्य यज्ञान्ते आस्तीकवचनं स्मर आस्तीकस्य वचः श्रुत्वा यः सर्पो शतथा भिद्यते मूर्ध्नि शिंसवृक्षफलं यथा सौतिरुवाच स एव मुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः सम्प्राप्य प्रीतिं विपुलां महात्मा ततो मनोगमनायाथ दध्ने मोक्षयित्वा तु भुजगान् सर्पसत्राद्विजोत्तमः जगामकाले धर्मात् मा दिष्टान्तं पुत्रपौत्रवान् इत्याख्यानं मयास्तीकं यथावत् तव कीर्तितं यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचेत चेत् यथा कथितवान् ब्रह्मन् प्रमतिः पुत्रायरुरवे ीतः पृच्छते भर्गवोत्तम यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया आस्ति कस्य श्रीमच्चरितमादितः श्रुत्वा धर्मिष्ठमाख्यानम् आस्तीकं पुण्यवर्धनं यन्मां त्वं पृष्टवान् ब्रह्म श्रुत्वा डुण्डुभभाषितं वेतुते सुमहद् ब्रह्मन् कौतूहलमरिन्दमा इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे अष्टपञ्चाशत्तमोऽध्यायः